अथ चतुर्दशम् दशकम् समनुस्मृत तावकाङ्घ्रियुग्मः समनुः पङ्कजसम्भवाङ्गजन्मा मंतर ते कथयन् सुखम् निनाय समये खलु तत्र कर्दमाख्यो द्रुहिणच्छाय भवस्तदीयवाचा धृतसर्गरसो निसर्गरम्यम् भगवंस्त्वामयुतम् समासिषेवे गरुडोपरिकालमेघकम्रम् विलसत्केलिसरोजपाणिपद्मम् हसितोल्लसिताननम् विभो त्वम् वपुरा विष्कुरुषे स्म कर्दमाय स्तुवते पुळकावृताय तस्मै मनुपुत्रीम् दयिताम् न कपिलम् च सुतम् स्वमेव पश्चात् स्वगतिम् चाप्यनुगृह्य निर्गतो भूः समनुष्यतरूपया महिष्या गुणवत्या सुतया च देवहूत्या भवदीरितनारदोपदिष्टः समगात्कर्दममा गतिप्रतीक्षम् मनुनोपहृताम् च देवहूतिम् तरुणीरत्नमवाप्यकर्दमोऽसौ भवदर्चन निर्वृतोऽपि तस्याम् दृढशुश्रूषणया दधौ प्रसादम् स पुनस्त्वदुपासनप्रभावाद्दयिता कामकृते कृते विमाने वनिता नवात्मा व्यहरद्देवपथेषु देवहूत्या क्षतवर्षमथ व्यतीत्यसोऽयम् नव कन्याः वनया न समुद्यतोऽपि कान्ता हितकृत्वज्जनोत्सुको न्यवात्सीत् निजभर्तृगिरा भवन्निषेवानिरतायामथ देव देवहूत्याम् कपिलस्त्वमजा यथा जनानाम् प्रथयिष्यन् परमात्मतत्त्वविद्याम् वन मे कपिलात्मकवायुमन्दिरेष त्वरितम् त्वम् परिपाहि माम् गदौघात् इति चतुर्दशम् दशकम्